मुद्गलपुराणं खण्डम् एट् धूम्रवर्णचरितम् अध्यायं ट्वेण्टि ऐट् शुकगीताकथनं श्रीगणेशाय नमः शिवदत्त उवाच वदतादमहायोगिन् सर्वसंशयनाशकृतयोगिनः नाना नानामतयुधं वचः केचिच्छिवं तथा विष्णुं रविं शकृतिं गणेश्वरं कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदन्ति च योगं साङ्ख्यमधानन्दमव्यक्तं बोधसंनिधम् अन्नं प्राणं मनो योगिन् योगिन्नित्यादि बहवो मदाः श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावदः सर्वमान्यं वद त्वमस्माकं परागतिः गर्ग उवाच अत्रते ते वर्णयिष्यामि चेतिहासं पुराभवम् शृणुष्वै गमनावत्स सर्वमान्यं वचो महत एकदा नैमिशारण्ये यज्ञं चकार हर्षदः वसिष्ठस्तत्र विप्रेन्द्रा देवेन्द्राश्च समाययुः नानावर्णाश्रमप्रज्ञाश्रेष्ठास्त्रैलोक्यवासिनः आययोर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे योगिनः शुकमुख्याश्च नागाशेषादयोपरे सर्वे सम्मिलितास्तत्र कथां चक्रुः परस्परं तत्र कुशला अवदन्मिधः नानामदसमयुक्ता श्रेष्ठं स्वस्वमदे स्थिरं नानावादपरा सर्वे निश्चयं नैवलेभिरे ततसुखं नमस्कृत्योचुः सर्वे शान्तिधारकं सर्वश्रेष्ठ ऊचुः भगवन् सर्वसारज्ञोगीन्द्रेषु महामदे श्रेष्ठस्त्वं शास्त्रवादेषु वदसारं हितायनः योगीन्द्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् जगाद सर्वसारज्ञसभायां सर्वसन्निधौ श्रीशुक उवाच अन्नकोशमयं ब्रह्मान्नसंज्ञं राजसम्मतं जागृस्थूलस्वरूपस्थं ज्ञातव्यं वेदवाददः प्राणो ब्रह्म तथा प्राणकोशानां तत्प्रकाशकम् मनःकोशमयं ब्रह्म मनोमयं प्रकीर्तितं विज्ञानकोशकं ब्रह्मविज्ञानपदवाचकं त्रिकोशस्थं क्रमात्सूक्ष्मं स्वाप्नमन्तरगं मदम् आनन्दकोशसंस्थं यद्ब्रह्मानन्दमयं बुधैः स उषुप्तमुभयत्रस्तं समं वेदविचारदः चैतन्यं चेदनासंस्थं ब्रह्मात्मप्रत्ययात्मकं तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकं बिन्दुमयं समाख्यातं ब्रह्मदेहात्मधारकं चतुर्नां संयोगे त्वं पदाश्रितम् उत्पत्तिस्थितिनाद्युक्तं प्रजुराख्यं चतुर्देहैस्तस्मात् त्वं पदसंदम् चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः उत्पत्तिस्थितिनाश्येभ्यो हीनः सोऽहं पदाश्रयः बिन्दुमोहयुधो नित्यं भ्रान्त्या नानावभासते एक एव स्वयं वेदे कथितस्तत्पदाश्रयः देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते देहाभिमानहीनश्चेत्परमात्मा स एव तु देहदेहि समायोगे योगोसि पदसञ्ज्ञकः मनोवाणीविहीनत्वाद्बोधरूपोऽयमुच्यते न ना बाह्यो नान्तरस्थो यन्नसमो ना नास्मितात्मकः न ना चतुर्नां हि संयोगे बिन्दुमात्रात्मकस्मृतः न सोऽहङ्काररूपस्तत्सदा भेदविवर्जितः अधः किं कथनीयं स्यात् तत्रैवं बोधरूपिणी बोधे न ज्ञायते सर्वं बोधस्य बोधकं च न अधो बोधमयं ब्रह्मासि पदाख्यं प्रकीर्तितं प्रकृतिसङ्गतो बोधो बोद्धः पुरुषधारकः प्रकृतिपुम्भवं सौख्यम् बोधो जानादि सर्वदा प्रकृति पुम्भवम् सौख्यम् ज्ञात्वा सृष्ट्वा स्वयम् प्रभुः द्वैधम् तत्र विशेषेण खेलत्यसि पदात्मकम् तेनायम् स्वद उत्थानवाचक परिकीर्तितः बोधादुदानभावश्च जायते सुविचक्षणाः तदपरं परं विबोधाख्यं ब्रह्मखेलविवर्जितं बोधनाशेन योगेन लभ्यते योगिभिर्मुदा बोधनाशे प्रसंख्यातुं कः समर्थो भवेन्नरः अधः साङ्ख्यपरं ब्रह्म सङ्ख्यानाश्चात्प्रकथ्यते दे। देहदेहिमये नित्यं ब्रह्मणि द्वैदमास्थितं स्वस्वभावविहीनेन तस्मात् परं विबोधकं विषयादिषु बोधेनोद्धानं संज्ञायते नृणाम् बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मदं ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते उत्थानवर्जितं साङ्ख्यं योगिभिर्ब्रह्म वर्ण्यते यदोत्थानयुगं ब्रह्म वर्तते सर्ववित्तमाः तदोद्धानविहीनत्वं मदे भवति अधपरद उद्धानसंयुतं साङ्ख्यसंदं ब्रह्मोद्धानविहीनत्वादुद्धानं जायतेऽन्यदः तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकं सर्वेषां ब्रह्मणां विप्रा संयोगस्तत्र तन्मयः स्वस्वरूपात् परं ब्रह्म संभ्योगाक्यं न वर्तते तदेवोद्धानहीनं नैवोद्धानविवर्जितं तदेव पञ्चधा जातं ब्रह्मस्वानन्दवाचकम् असत्सत् समानेदि स्वानन्दभेदाय प्रकथ्यते अन्नं ब्रह्मेदि यत्प्रोक्तं तत्रान्नमयमुच्यते नाम तस्य न सन्देहोऽन्योपाधित्वाद्विचक्षणाः तस्यानुभवरूपं यद्योगिनां हृदि जायते तदेव रूपकं तस्य नामरूपात्मकं ततः समाधिनामः योगी तद्यक्त्वा प्राणब्रह्मणि गच्छति चेत्तत्तान्नस्य लयस्तत्र भवत्स्वयं स्वयं तद्वत्क्रमेण योगीन्द्रास्वानन्दस्ता भवन्ति त्यक्त्वा ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना तदा तेषां लयस्तत्र जायते ब्रह्मणां किल अद उत्पत्तिनाशाभ्यां तानि युक्तानि योगिनः उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते अदो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहदः बोधसाङ्ख्यात्मके यस्माज्जायते स्वस्वरूपदः तत्रान्ते योगभावेन गच्छतो लयमञ्जस अधो सद्रूपस्वानन्दो नाना ब्रह्मसु संस्थितः स वेदवादेशु शाक्तं ब्रह्म तदुच्यते असदिजीवनं यच्च सदा खण्डमयं परं सद्रूपं स्वस्वरूपं तदात्माभानु प्रपद्यते तयोस्रष्टा समः साक्षात् स्वानन्दः परिकीर्तितः विष्णुः स तत्प्रवेशात्तु ब्रह्मवेदे ब्रह्मणां जगदं तस्माद् भावस्तेन प्रकथ्यते भवप्रत्ययसञ्जं तद् ब्रह्म यत् स्वस्वरूपकं समाधि सं निदं ब्रह्मान्वय सर्वत्र कीर्तितं स्वस्वरूपं मखौजसः तत परम परमयोगाख्यं ब्रह्म मायाविवर्जितं मायया वर्णनं सर्वं जायते तद्विवर्जितं मायया जगदामत्र ब्रह्मणां खेल उच्यते तेषां संयोगभावश्च योगे किं तैः प्रकध्यते यद्युत्थानयुधं ब्रह्म तदा बोधमयं भवेद उत्थानवर्जितं चैदद्भवेत् साङ्ख्यविबोधगं समाधिसंज्ञं यदि तत्तदा स्वानन्दमुच्यते स्वस्य प्रवेशनाश्चाद्वै किमयोगे वदत्ययं ब्रह्म ब्रह्मणि संस्थं तन्नागदं नगदं गदं व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि योगिनां सदा निवृत्तिसंज्ञं तद् ब्रह्म मायाविवर्धितं स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते तदः मायानाशार्थमत्यन्तमुपायो ह्ययमे कलह उपायप्रत्ययाख्यं तद्ब्रह्म अयोगात् परमं ब्रह्मयोगाख्यं शान्तिदायकं संयोगायोगयोर्योगे लभ्यते योगिनायकैः तदेव गणराजश्च ब्रह्मणस्पदिवाचकः ब्रह्मणां ब्रह्मरूपस्स शान्ध्या योगेन लभ्यते संयोगे गणराजस्तु गकाराक्षरगोमदः अयोगे स्वणकाराख्यस्तयोपधि प्रत इदं वेदान्तसारं यत्कथितं योगमार्गदः तं भजध्वं महाभाग यदि शान्तिं समिच्छ गर्ग उवाच एवमुक्त्वा शुको योगी तूष्णीं भावेन संस्थितः सर्वे विस्मितचित्तास्तं साधु साध्विधि च ब्रुवन् निःसंशया कृतास्तेन त्यक्त्वा स्वस्वमदं तदः गणेशभजने सक्ता वयं पुत्रमहामदे क्रमेण शान्तिमापन्ना गाणपा अभवंश्च ते गदा गणेश्वरं योगशान्दितं त्वां वदाम्यहं सुगगीता मया तुभ्यं कथिदा ब्रह्मदायिनी शृणुयाद्भ्यः पठेत्सोऽपि ब्रह्मभूतो भविष्यति ज्ञानेन सदृशं ज्ञानं योगदं कुत्र वर्तते श्रवणा सर्वसिद्धिदं भविष्यति क्रमादिदं यं यम यमिच्छति तं तं स लभते मानवोद्ध्रुवम् अन्धे स्वानन्दवासी स ब्रह्मभूतो भविष्यति सुखगीतासमं दी। किञ्चिद्विद्यते नैव निश्चितम् ेदोपनिषदाद्येषु सारभूता सारभूताहि कथ्यते न दुर्जनायेयं दुर्जना येयं वेदगुह्यमयी परा योगिभिः शुद्धचित्तेभ्यः सुधश्राव्या प्रयत्नतः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिशद्धि श्रीमन्म महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते शुकगीताकथनं नाम अष्टाविंशोऽध्यायः ॐ